मार्कण्डेयपुराणम् अध्यायं फिफ्टीन् यमकिङ्कर उवाच पतितात् प्रतिगृह्यार्थं हरयोनिं व्रजे द्विजः नरकात्प्रतिमुक्तस्तु कृमिक्पतिदयाचकः उपाध्यायव्यलीकन्तु कृत्वा श्वा भवति द्विजः तज्जायां मनसा वाञ्छन् तद्द्रव्यं चाप्यसंशयं गर्दभो जायते जन्तुः पित्रोश्चाप्यवमानकः मादा पितरा पितरावाकृष्य शारिका सम्प्रजायते भ्रातुः पत्न्यवमन्ता च कपोत्तत्त्वं प्रपद्यते तामेव पीडयित्वादु कच्छपत्वं प्रपद्यते भर्तृपिण्डमुपाश्नन्यस्तदिष्ठं न निषेवते सोऽपि मोहसमापन्नो जायदे वानरो मृतः न्यासापकर्ता नरगाद्विमुक्तो जायदे कृमिः असूयकश्च नरकान्मुक्तो भवदि राक्षसः विश्वासहन्ता च नरो मीनयोनौ प्रजायते धान्यं यवां स्थिलान्माषान् कुलद्धान् सर्षपां क्षणान् कलायान् गोधूमान गोधूमानतसिस्तथा शस्यान्यनि वा कृत्वा मोहाद्यन्धुरचेतनः सञ्चायते महावक्त्रो मूषिको बभ्रुसन्निभः परदाराभिमर्शात्तु भृगो घोरोऽभिजायते श्वृगालो वगो गृध्रो व्याढक् क्रमाद कंगक्रद भ्रातृभ्याो दर्शयद पापक पुस्कोकिलनों सचापी नरकाच्यु सखिभ्या भार् पापकृत प्रदर्शयित्वा कामात्मा शूकरो जायते नरः यज्ञदानविवाहाना विक्रकर्ता भवेत्कृमिः पुनर्दाच्च कन्याया कृमिरेवोपजायते देवता पितृविप्राणामदत्वा योऽन्नमश्नुते प्रमुक्तो नरकात्सोऽपि वायसः सम्प्रजायते ज्येष्ठं पितृसमं वापि भ्रातरं योऽवमन्यते नरकात्सोऽपि बिभ्रष्टक्रौञ्चयोनौ प्रजायते शूद्रश्च ब्राह्मणरिं गत्वा कृमियोनौ प्रजायते तस्यामपत्यमुत्पाद्य काष्ठान्धकीटको भवेद् स्यूकरकृमिको मधुश्चण्डालश्च प्रजायते अकृतज्ञो धमः पुंसां विमुक्तो त्यस्तु वायसकोर्मः पुकसो जायते ततः अशस्त्रं पुरुषं हत्वा नरः सञ्जायते करः कृमिस्त्रीवधकर्ता जायते भोजनं चोरयित्वादु मक्षिका जायते नरः तत्राप्यस्ति विशेषो वै भोजनस्य शृणुष्व तद हत्वान्नन्दुसमार्जारो जायते नरकाच्युतः तिलपिण्यागसम्मिश्रमन्नं हृत्वादुमूषिकः कृतं हृत्वा च नकुलकागो मद्गुरजामिषं मत्स्यमांसाप्रहृत् काकश्यनो मगामीषापृत बीजीकाकस्वहृदे दधनी कृम चोरय्वा पयच्चापी बलाका संजाते यस्तु चोरये तैलं तैलपाईयी स जायते मधु कृत्वा नरोदं पूपं कृत्वा पिपीलिकः चोरयित्वा तु निष्पावान् जायते गृहगोलकः आसवं चोरयित्वा तु तिरित्वमवाप्नुयात् अयो कृत्वा पापात्मा वायसः सम्प्रजायते हृदे कांस्ये जहारीधक्कपोधोप्यभाजने कृत्वादु काञ्चनं भाण्डं कृमियोनौ प्रजायते पत्रोर्णं चोरयित्वा दुः क्रकरत्वञ्च गच्छति कोशकारश्च कौशेये हृदे वस्त्रेऽभिजायते दुकुले शार्ङ्गखपापो हृदे चैवां शुके शुकः तथैवजाभिकं कृत्वा वस्त्रं क्षौमं च जायते कार्पासिके हृदे क्रौञ्चो वाल्कहर्ता बकस्तथा मयूरो वर्णकान् हृत्वा शाकपत्रं च जायते जीवज्जीवकदां यादिरक्तवस्त्रापहृन्दरः चुच्छुन्दरिशुभान् गन्धान् वासो कृत्वा शशोऽभवत् षण्ढःफलापहरणात् काष्ठस्य कुणकीटकः पुष्पापहृद्दरिद्रश्च पङ्गु पर्यानापहृन्नरः शाकहर्ता च हारीतस्तोयहर्ता च चातकः भूहर्ता नरकान् गत्वा रौरवादीन् सुदारुणान् तृणगुल्मलदावल्लि त्वक्सारतरुतां क्रमाद् प्राप्य क्षीणाल्पपापस्तु नरो भवति वै ततः कृमिकीढः चरो मृगः गोत्वं प्राप्य च चण्डालपुकसादिजुगुप्सितं पङ्कन्धो वधिरकुष्ठीयक्ष्मणाजप्रपीडितः मुखरोगाक्षिरोगैश्च गुदरोगैश्च बाध्यते अपस्मारी च भवति शूद्रत्वं च स गच्छति एष दृष्टो गोसुवर्णापहारिणां विद्यापहारिणश्चोग्रा निष्क्रयभ्रंशिनो गुरोः जायामन्यस्य पुरुषः पारख्यां प्रतिपादयन् प्राप्नोति षण्ठतां मूढो यादनाभ्यः परिच्युदः ह्यः करोति नरो होममसमिद्धे विभावसौ सोऽजीर्नव्याधिदुःखार्थो मन्दाग्निस्सम्प्रजायते परनिन्दाकृतक्रत्वं परमर्मावघट्टनं नैष्ठुर्यं निर्घृणत्वं च परदारोपसेवनं परस्वहरणाशौचं देवतानां च कुत्सनम् निकृत्याकञ्चनं नृणां कार्पण्यं च नृणां वधः यानिच प्रतिषिद्धानि तत्प्रवृत्तिश्च उपलक्ष्यानि उपलक्ष्याणि जानीयान्मुक्तानां नरकादनु दया भूतेषु संवादः परलोकप्रतिक्रिया सत्यं भूतहितार्थोक्तिर्वेदप्रामाण्यदर्शनं गुरुदेवर्षि सिद्धर्षि पूजनं साधुसङ्गमः सत्क्रियापायसनं मैत्रीमिति बुध्यदे पण्डितः अन्यानि चैव सद्धर्मं क्रियाभूतानि यानि च स्वर्गच्युदानां लिङ्गानि पुरुषाणामपापिनां एदुद्देश्यतो राजन् भवदकथितं मया स्वकर्मफलभोक्तॄणां पुण्यानां पापिनां तथा तदेह्यन्यत्र गच्छामो दृष्टं सर्वं त्वयाधुनां त्वया दृष्टो त्वया हि नरकस्तदेह्यन्यत्र गम्यतां पुत्र उवाच ततस्त मग्रधकृत्वा सराजा गन्तुमुद्यतः ततश्च सर्वैरुत्कृष्टं यादनास्तायिभिर्नृभिः प्रसादं कुरु भूभेदि तिष्ठतावन्मुहूर्तकं त्वदङ्गसङ्गीपवनो मनोक्लादय देहिनः परिता पञ्चगात्रेभ्यः पीडाबाधाश्च कृष्णशः अपहन्दिनरव्याघ्र यदां कुरमहीपदे ये दच्छ्रुत्वा वचस्तेषां तं याम्यपुरुषं नृपः पप्रच्छ कथमे तेषामाह्लादो मयि तिष्ठति किं मया कर्म तत्पुण्यं मर्त्यलोके महत्कृतम् आह्लाददायिनी व्युष्टिर्येणेयं तदुदीरय यमपुरुष उवाच पितृदेवातिथिप्रैष्यशिष्ठेनाान्येन ते पुष्टिमभ्यागदा यस्मात्तद्गतं च मनो यतः ततस्त्वद्गात्रसंसर्गो पवनो ह्लाददायकः पापकर्मकृतो राजन् यादना न अश्वमेधादयो यज्ञास्त्वयेष्टा विधिवद्यतः शास्त्राग्नि पीडन ततस्तर्शनाद्याम्रशस्वायस पीड़न छेदादिमहादुख से हेतव मृदुमागदार राजन्तेजसहताव राज तत्सुखं प्राप्यते नरैः यदार्थजन्तुनिर्वाणदानोद्धमिति मे मतिः यदि यादनान यादनानप्रबाधते तदो भद्रमुखात्राहं स्थास्ये स्थाणुरिवाचलः यमपुरुष उवाच ये हि राजन्प्रगच्छामो निजपुण्यसमर्जितान् भुङ्क्ष्व भोगानपास्येह यादनाः पापकर्मणां राजोवाच तस्मान्न तावद्ध्यास्यामि यावदे सुदुःखिताः मत्सन्निधानात् सुखिनो भवन्ति नरकौकसखाधिक्तस्य जीवनं पुंसः शरणार्थिनमाधुरं यो नार्तमनुगृह्णादि वैरिपक्षमपि ध्रुवम् यज्ञदानतपांसीह परत्रचनभूतये भवन्दि तस्य यस्यार्थपरित्राणेन मानसं नरस्य यस्य कठिनं मनो बालातुरादिषु वृद्धेषु चनतं मन्ये मानुषं राक्षसो हि सः सन्निकर्षातु सन्निकर्षात् यद्यग्निपरितापजं तथोग्रगन्धजं वापि दुःखं नरगसम्भवम् क्षुत्पिपासा भवं दुःखं यच्च मूर्छाप्रदं महद यदेशां त्राणदानन्तु मन्ये स्वर्गसुखात् परं प्राप्स्यन्त्यार्ता यदि बहवो दुःखिते मयि किन्नु प्तं मया न स्यात् तस्मात् त्वं व्रजमाचिरं यमपुरुष उवाच एष धर्मश्च शक्रश्च त्वां नेतुं समुपागतौ तस्मात् पार्थिव धर्म उवाच नयामित्वामहं स्वर्गं त्वया सम्यगुपासितः विमानमेददारुह्यमा विलम्बस्वगम्यदां राजो वाच नरके मानवाधर्म पीड्यन्तेऽत्रसहस्रशः त्राहीदि चार्थाक्रन्दन्ति मामतो न व्रजाम्यहम् इन्द्र उवाच कर्मणां नरकप्राप्तिरेतेषां पापकर्मिणां स्वर्गस्त्वयापि गन्तव्यो नृपुण्येन कर्मणां राजोवाच यदि जानासि धर्मत्वं त्वं, त्वं वा शक्रशचीपदे मम यावत्प्रमाणन्तु शुभं तद्वक्तुमर्हतः धर्म उवाच अबिन्दवो यथाम्बोधौ यथा वा दिवि तारकाः वा वर्षदा गड्गायां सिकता यथा असंखेया महाराज यथा बिन्द्वादयोक्ष्यपां तथा तवापि पुण्यस्य सङ्ख्या नैवोपपद्यते अनुकम्पामिमामद्य नारकेष्विह कुर्वतः तदेव शतसाहस्रं संख्यामुपगदं तवा तद्गच्छत्वं नृपश्रेष्ठ तद्भाक्तुमरालयं येदेऽपि पापं नरके क्षपयन्तुस्वकर्मजं राजोवाच कथं स्पृहां करिष्यन्ति मत्सम्पर्केषु मानवाः यदि सत्सन्निधावेषामुत्कर्षो नोपजायते तस्माद्यत् सुकृतं किञ्चिन्ममास्ति त्रिदशाधिप मुच्यन्तु नरकात् पापिनो यातनां गताः इन्द्र उवाच एवमूर्ध्वतरं स्थानं त्वया वाप्तं महीपते एतांश्च नरकात् पश्य पापकारिणः पुत्र उवाच तदोपदत्पुष्पवृष्टिस्तस्योपरि महीपतेः विमानञ्चाधिरोप्यैनं स्वर्लोगमनयद्धरिः अहं चये तत्र यादनाभ्यः परिच्युताः स्वकर्म स्वकर्मफलनिर्दिष्टं तदो जात्यन्तरं गदाः एवमे समाख्यादा नरकाद्विजसत्तम येन येन च पापेन यां यां योनिमुपैदि वै तत्तत्सर्वं समाख्यादं यथा दृष्टं मया पुरा पुरानुभवजं ज्ञानमवाप्याविदथं तव अधः परं महाभाग किमन्यत्कथयामि ते इति श्रीमार्कण्डेयपुराणे पिता पुत्रसंवादो नाम पञ्चदशोऽध्यायः ओ